नमस्सर्वेभ्यः अस्माकं योगनिष्ठजीवनम् इति वर्गे भवतां सर्वेषां स्वागतं गतवर्गे अस्माभिः भिन्नस्तराः सन्ति खलु योगनिष्ठजीवने भिन्नस्तराः सन्ति इति अस्माभिः दृष्टं यतमानः व्यतिरेकः एकेन्द्रियः वशिकारः इति स्तराः सन्ति इति अस्माभिः दृष्टं यदा कस्यचित् पुरुषस्य अन्तश्चक्षुः उद्घाटितं भवति तदानीन्तः सः स्वजीवने तत्र परिवर्तनं कर्तुं यतते तदा सः ज्ञास्यति कथं मानवजीवनं मानवजीवने कथम् आचरणं कथं भवेत् व्यवहारः कथं भवेत् स्वजीवने आहारः कथं भवेत् एतत् सर्वं यदा सः ज्ञास्यति तदानीं किं भवति इति चेत् सः मानवधर्मस्य पालनं कर् सः आरभते पशुजीवनं त्यक्त्वा मानवजीवनस्य पालनं कर्तुं सः आरभते प्रायेण जनाः मनुष्याः पशुधर्मसेवपालनं कुर्वन्ति आधिक्येन यदा सः पुरुषः सः मनुष्यः अवगच्छति यत् मम अनन्तेषणा वर्तते या एषणा सीमितवस्तुभिः वस्तुभ्यः अथवा सीमितवस्तुभिः अनन्तेषणायाः पूर्तिः न भवति इति यदा सः अवगच्छति तदानीं परमात्मनः कृपया तस्य सम्पर्कः अन्य अन्य अन्यमनुष्येन सह तस्य सम्पर्कः भवति वस्तुतः अन्यमनुष्यः इत्युक्ते तत्र परमपुरुषस्य कृपया एव तादृशमार्गस्य ज्ञानं भवति तदानीं सः प्रथमतया किं करोति इति चेत् अनुशासनं तदेव यतमानः इति अस्माभिः गतवर्गे दृष्टम् अय आया, अयं स्तरः निश्चयेन कठिनः स्तरः अस्ति यतोहि तस्मिन् स्तरे सः सर्वम् अवगच्छति अपि च स्वजीवने आनयनार्थं सः यतते तर्हि तत्र सङ्घर्षः अवश्यं भवति तर्हि इदानीं तत्र यथा अस्माभिः पूर्वं दृष्टं तत्र सङ्घर्षस्य भिन्नभिन्नस्तराः सन्ति अनुशासनम् अभ्यासः स्वभावः इति एकरीत्या विभागः अन्यरीत्या विभागः यतमानः व्यतिरेकः एकेन्द्रियः वशीकारः इति तर्हि यदा प्रारम्भिकस्तरे यदा मनुष्ये तत्र बिन्न बिन्न पशु पशुधर्माः इत्युक्ते पशु इच्छाः यदा भवन्ति यस्य येषां पालनं सः मनुष्यः बहुकालात् कुर्वन् अस्ति इदानीं तस्य मनसि अवगमनं जातं यद् एतादृशजीवनं सम्यक् नास्ति तत्र पुरातन अभ्यासाः ये, अभ्या ये आसन् तेषां त्यागः मया करणीयः इति यः अवगच्छति यः अवगच्छति य तत्र पशुधर्मः तत्र पशुधर्मस्य पालनम् अथवा पशु पशुव्यवहारे पशुधर्मस्य पालनं यथा बहुकालात् सः कुर्वन् अस्ति तादृशव्यवहारेण न लाभः तादृशव्यवहारः सम्यक् नास्ति सः अवगच्छति कथम् अवगच्छति इति चेत् यतोहि तस्य जीवने सुखं दुःखं सुखं दुःखं सुखं दुःखम् इति सर्वदा भवति कदाचित् सुखं कदाचित् दुःखं पुनः सुखं पुनः दुःखम् इति एतादृशरीत्या पुनः पुनः तत्र परिवर्तनं जायते तर्हि इदानीं सुखमस्ति परन्तु अन्ततो गत्वा दुःखम् भवति पुनः सुखं भवति एवं रीत्या क्षणिकसुखं क्षणिकदुःखम् इति एवं रीत्या भवति एतत् सर्वं मम कृते मास्तु इति यदा सः अवगच्छति तदानीं तस्य जीवने नूतन व्यवहारः नूतनस्तरः आरभते तदानीं स सः किं करोति इति चेत् तस्य पुरातनव्यवहारः ये आसन् पुरातन अभ्यासाः ये आसन् तेषां नियन्त्रणं कर्तुं सः आरभते परन्तु पुरातनव्यवहाराः पुरातन अभ्यासाः ये सन्ति ते तु पुनः पुनः आकर्षणं मनुष्य मनुष्यं तत्र आकर्षणं पुनः पुनः ते आकर्षणं कुर्वन्ति अतः आरम्भिकस्तरे बहु कठिनः व्यवहारः यथा अत्र बहु बृहती नौका वर्तते चेत् यदा तस्य दिशः परिवर्तनं करणीयं तर्हि तत्र किं भवति इति बहु प्रयासः अपेक्षितः अस्ति बहु बृ बृहती नौका अस्ति इति कृत्वा तस्य दिशः परिवर्तनं सुलभतया न भवितुम् अर्हति एवं रीत्या मनुष्य मनुष्यजीवने पशुव्यवहारः पशुजीवनस्य पालनं बहुयुगात् अस्माभिः क्रियमाण क्रियमाणम् अस्ति इति कृत्वा दिशः परिवर्तनं सुलभं न भवति यथा करोति अथवा मधुपानं करोति तर्हि तत्र किं भवति इति चेत् तस्य आकर्षणं बहु अधिकं भवति मधुपानस्य अथवा धूम्रपानस्य तर्हि यदा सः तस्य त्यागं कर्तुं प्रयतते तदापि तत्र आकर्षणं बहु भवति तत्र केचन जनाः चिन्तयन्ति यत् अहम् एतत् सर्वं किञ्चित् शनैः शनैः करोमि इति जनाः केचन जनाः चिन्तयन्ति परन्तु तथा तथा करणे लाभः नास्ति यदि कोऽपि पुरुषः धूम्रपानस्य त्यागं कर्तुम् इच्छति तर्हि किम करोति इति चेत् एकदा एव सम्पूर्णतया न त्यजति परन्तु किञ्चित् किञ्चित् अहं त्यजामि इति कृत्वा पूर्वम् इत्युक्ते द्वादश सिगरेट्स इत्यस्य किं पानं करोति चेत् इदानीं तत्र इदानीम् अहं दश दश करोमि इति चेत् तेन न कोऽपि लाभः इदानीमपि दुर्व्यवहारः अस्ति खलु दुर्व्यवहारस्य त्यागेन एव तत्र मोहः गच्छति दुर्व्यवहारः इदानीमपि अस्ति चेत् सर्वदा भवति एव कदापि तस्य त्यागः न भवति एवमेव आहारविषये अपि अहं शनैः शनैः करोमि अद्य किञ्चित् स्वीकरोमि पर पुनः श्वः न स्वीकरोमि इत्येवं रीत्या वयं कुर्मः चेत् तत्र लाभः न भवति यतोहि सर्वदा तत्र वासः तत्र मोहः भवति तेषां विषये तर्हि तत्र पशु पशुजीवनम् आकर्षणं अस्माक अस्माकम् आकर्षणं भवति पशुजीवने अतः यदा निश्चयः अस्माभिः क्रियते पशुजीवनस्य पालनमहम् इतः न करोमि इति यदा निश्चयः भवति तदानीं तत्र किं भवति इति चेत् झटिति तस्मिन् क्षणे यदा निश्चयः भवति तस्मिन् क्षणे एव त्यागः आवश्यकः किञ्चित् कालानन्तरं करोमि इति चिन्तयति चेत् तदानीं मनसि परिवर्तनं जायते परिवर्तनं जायते चेत् पुनः इदानीं न करोमि ते तादृशभोजनस्वीक स्वीकरणे कः क्लेशः इदानीं आ, तु सम्यक् अस्मि किञ्चित् कालानन्तरं रोगाः शरीरे भवन्ति चेत् भवन्तु नाम तेन अध्यतु अद्य संतुष्टेन अहं सन्तुष्टेन अस्मि क्षणिकसुखं तु लभ्यते कलो यः धूम्रपानं करोति किमर्थं करोति यतोहि क्षणिकसुखं लभ्यते कोपि मांसभक्षणं किमर्थं करोति यतोहि क्षणिकसुखं लभ्यते इति कृत्वा तत्र ये ये दुर्व्यवहाराः सन्ति तत्र सर्वत्र एवमेव अस्ति यतोहि क्षणिकसुखं लभ्यते तत् क्षणिकसुखस्य त्यागं कर्तुं सः पुरुषः न इच्छति सः न इच्छति खलु तर्हि अत्र वास्तविकतया तत्र वास्तविक आनन्दः कः इत्यस्य आस्वादः एतावता न जातः इति कृत्वा एतादृशक्षणिकसुखे मोहः अस्ति सम्पूर्णतया त्यागं कर्तुं तत्र एतेषां दुर्व्यवहाराणां त्यागं कर्तुं तत्र मनुष्यः भयभीतः भवति भयभीतः भवति इत्युक्ते धूम्रपानं नास्ति चेत् किञ्चित् दिनपर्यन्तम् अहं नरकवेदनाम् अनुभवामि अतः तद् मास्तु एतत् सर्वं अहम् इच्छामि इति तादृशव्यवहारः अस्ति किमर्थम् एवं व्यवहारः अस्ति इति चेत् यतोहि एतेषां विषये अस्माकं मोहः वर्ते मोहः वर्तते अस्मान् एते विषयाः तत्र अस्माकम् आकर्षणं भवति एतेषां विषये विजय एतेषु विषयेषु अस्माकम् आकर्षणं भवति किमर्थम् आकर्षणं भवति इति चेत् अस्माकं क्षणिकसुखं लभ्यते अस्माकं जीवने बहवः क्लेशाः सन्ति बहूनि कट् अ... किं बहूनि अ... कठिनानि सन्ति तर्हि तत्र, तत्र क्षणिकसुखं यदा लभ्यते तर्हि मनुष्यः सन्तुष्टः भवति तर्हि यदा तत्र कार्यं करोति प्रतिदिनं कार्यं करोति कार्यालयं गच्छति अथवा अन्यत्र गच्छति तर्हि तत्र मानसिकवेदना भवति कार्य कार्यात् तर्हि तत्र तस्मात् क्षणिकसुखं प्राप्तव्यं चेत् तर्हि तत्र कार्यात् यदा गृहं प्रति आगच्छति तर्हि मार्गे तत्र कोऽपि भक्षण आहारं स्वीकर्तुं तत्र आपणम् चेत् तत्र गच्छति तत्र खादति तदानीं तत्र क्षणिकसुखं लभ्यते तर्हि तर्हि परन्तु किं भवति इति चेत् यद्यपि क्षणिकसुखं लभ्यते परन्तु तस्मात् तदन तदनन्तरं तत्र उदरे वेदना भवति एतत् सर्वं भवति खलु बहिः वयं किमपि खादामः चेत् अस्माकम् उदरं सम्यक् भवति इति नास्ति तत्र उदरे वेदना भवति उदरे अन्या अन्याः समस्याः अपि भवन्ति अत्र किञ्चित् कालानन्तरं रोगाः अपि आगच्छन्ति पुनः पुनः बहिः खादामः चेत् रोगाः अपि आगच्छन्ति परन्तु जनाः स्वजीवने परिवर्तनम् आनेतुं क्लेशम् अनुभवन्ति भा, ते वयभीताः अपि भवन्ति यतोहि ते चिन्तयन्ति जीवने तत्र आस्वादः एव नास्ति सन्तोषः एव नास्ति एतेभ्यः एव मम सन्तोषः आसीत् भोजनेन एतादृशभोजनेन अथवा बहिः गच्छामि चलनचित्रं पश्यामि एतत् सर्वं करोमि चेत् तदानीमेव आनन्दः आसीत् मम इति यदा चिन्तयति परन्तु एतत् सर्वं तु क्षणिकसुखम् अस्ति यद्वयम् इच्छामः वास्तविकतया तत्तु आनन्दः अस्ति आनन्दः एव वयं आनन्दम् इच्छामः क्षणिकसुखं क्षणिकसुखस्य अपेक्षया तदनन्तर निरन्तरनिरन्तरसुखं निरन्तरसुखम् एव इच्छामः तत्तु क्षणिकसुख सुखस्य अपेक्षया निरन्तरसुखम् इति तुलना तुलनामेव कर्तुं न शक्नुमः निरन्तरसुखं तु तत्र स्थायी अस्ति स्थायि स्थायि सुखमस्ति तत्र सर्वदा भवति य यदि कोऽपि पुरुषः विंशति यदा तस्य विंशति विंशतिः वयः अस्ति तदानीं सः योगनिष्यजीवने प्रवेशं करोति तदानीं तत्र यदा सः वृद्धः भवति तदानीमपि साधनां कर्तुं शक्नोति व्यायामं कर्तुं शक्नोति आसनानि कर्तुं शक्नोति एतत् सर्वं कर्तुं शक्नोति यतोहि तत् तस्य अभ्यासः जातः तस्य स्वभावः जातः इदानीं तस्य जीवने तस्य जीवने आनन्दः अस्ति तर्हि तत्र तत् तस्मिन् मार्गे सः प्रतिष्ठितः अस्ति प्रतिष्ठितः अस्ति तादृश आनन्दस्य अपेक्षया क्षणिकसु क्षणिकसुखं किमपि नास्ति क्षणिकसुखम् इदानीम् अस्ति अग्र अनन्तरं गच्छति परन्तु स्थायिसुखम् एव अस्माभिः इष्यते खलु तर्हि तद् कथं भवति इति चेत् आरम्भिकस्तरे यतमानस्तरे तु तत्र अस्माभिः प्रयासः करणीयः तत्र अनुशासनं आवश्यकमस्ति अनुशासनं यदा क्रियते तदानीं किञ्चित् कालानन्तरं तत्र अभ्यासः काला जायते यदा अभ्यासः जायते तदनन्तरं पुनः अग्रे गत्वा किञ्चित् स्वभावः जायते यदा स्वभावः जायते तदानीं तस्मात् ये तत्र पूर्वं ये विषयाः अस्माकम् इष्टाः ये विषयाः अस्माभिः इष्य इष्यन्ते तादृशविषयाः इदानीम् अस्माकं पुरतः तादृशविषयाः सन्ति चेदपि अस्माकम् आकर्षणं न भवति यदा योगनिष्ठजीवनम् अस्माकं स्वभावः अभवत् इदानीं तत्र ये विषयाः अस्मान् पूर्वम् आकर्षयन्ति तादृशविषयाः तादृश विषयेषु इदानीम् आकर्षणं नास्ति आकर्षणं समा अस्माकम् इच्छाः अनिच्छाः परिवर्तन्ते इच्छाः अनिच्छाः परिवर्तन्ते यतोहि यदा यदा योगनिष्ठे जीवनमिति स्वभावः भवति तदानीं आ, पूर्वं ये विषयाः इष्टाः तादृशविषयाः इदानीं तत्र तेषु विषयेषु इदानीम् इच्छा न भवति परन्तु तत्र किं स्मर्तव्यम् चेत् यतमानस्तरे क्लेशाः अवश्यं भवन्ति क्लेशः अवश्यं भवति अस्माभिः क्लेशानाम् आलिङ्गनं करणीयं क्लेशानाम् आलिङ्गनं करणीयम् अत्र यतमानस्तरे साधनाङ्गानि सन्ति यानि साधनाङ्गानि सन्ति तानि सर्वाणि अस्माकं सहायं कुर्वन्ति यथा तत्र निर्जलोपवासः सात्विकाहारः तर्हि तत्र सात्विकाहारे शर्करायाः लवणस्य अनन्तरं दुग्दस्य एतेषां त्यागः मांसभक्षणस्य त्यागः व्यायामं व्यायामं कुर्मः तत्र सम्यक्तया निद्रा भवति एतत् सर्वं भवति अनन्तरं सः मनुष्यः साधनामपि साधनापद्धतिमपि जानाति तदानीं तस्य सम्पूर्णवातावरणं परिवर्तते तत्र तत्र शरीरे यद् वातावरणमस्ति तस्मिन् शरीरे वा मनः वसति खलु तादृशशरीरे यद् स्पन्दनम् अस्ति तत् स्पन्दनं सम्पूर्णतया परिवर्तते सम्पूर्णतया परिवर्तते तर्हि तत्र अस्मिन् मार्गे आनन्दः अस्ति मनः बन्धनात् मुक्तः भवति इदानीं मनः बद्धः बद्धमस्ति मनः बद्धमस्ति यतोहि पशुव्यवहारे मनः पुनः पुनः गच्छति अतः मनः बद्धः अस्ति कारा कारागृहे अस्ति इदानीं मनः कारागृहे अस्ति एतद् ये विषयाः इदानीं चर्चिताः तत्र लौकिकविषयाः आहारः इत्युक्ते तत्र बहिः खादनम् इत्यादयः तदानीं मनः बद्ध बद्धमस्ति एतैः विषयैः विषय एतैः विषयैः मनः तत्र बद्धं बद्धमस्ति तर्हि तत्र मनसि मुक्तिः मनः मुक् मनः मुक्तं कथं भवति इति चेत् एतेषां विषयाणां त्यागेन एव मनः मुक्तं भवति यदा एतेषां विषयाः एतेभ्यः विषयेभ्यः यदा मन मनः मुक्तं भवति तदानीं मनसः वर्धनं भवति मनः मनसि विस्तारः भवति मनसि विस्तारः भवति तत्र मनसि गुणः कः अस्ति इति चेत् मनसि एकः प्रधानगुणः अस्ति यत् मनः विस्तारं मनः विस्तारम् इच्छति मनः विस्तारम् इच्छति यदा पशुजीवने व्यवहारः अस्ति तदानीं मनः बद्धं वर्तते मनः तु असम्पूर्णतातः सम्पूर्णता सम्पूर्णतां प्रति गन्तुम् इच्छति तदेव तत्र विस्तारः इति वयं वदामः यदा विस्तारः भवति तदानीं मनसि तत्र स्वतन्त्रता भवति मनसि स्वतन्त्रता भवति योगवशजीवने यदा व्यवहारः भवति किञ्चित् कालानन्तरं मनः मनसि तत्र स्वतन्त्रता भवति मनः तत्र मुक्तिम् अनुभवति मुक्तिम् अनुभवति तत्र लौकिकविषयेभ्यः मुक्तिः भवति अवश्यमुक्तिः भवति तदनन्तरं किं भवति इति चेत् अभ्यासः यदा जायते अनन्तरं स्वभावः भवति तदानीं किं भवति इति चेत् एते विषयाः अस्माकं पुरतः सन्ति चेदपि अस्माकम् आकर्षणं न भवति तत्र कु किञ्चिदपि आकर्षणं न भवति अन्ये तत् कुर्वन्ति चेदपि तद्दृष्ट्वा वयम् अग्रे गच्छामः तत्र मम इच्छा नास्ति इति एवमेव मनसि तत्र इच्छाः अनिच्छाः परिवर्तन्ते तदर्थं एतत् सर्वं कर्तुं लोकं त्यक्त्वा कुत्रचित् पर्वते वयं गच्छामः हिमालयपर्वते गच्छामः इति नास्ति अत्र जगति मार्गद्वयम् अस्ति केचन ज जनाः योगविषयजीवने आगच्छन्ति परन्तु विवाहं न कुर्वन्ति तत्र सम्पूर्णतया योगनिष्ठजीवने तत्र सम्पूर्णतया तत्र योगनिष्ठजीवने व्य व्यस्ताः भवन्ति सम्पूर्णतया तत्र भवन्ति तेषां कृते एकः एव परिवारः भवति तत्तु तत्र जगत् परिवारः अस्ति तेषां तर्हि ये जनाः गृहस्थाः सन्ति तत्तु द्वितीयः मार्गः अस्ति गृहस्थाः तेषां तु परिवारद्वयं वर्तते एकः एकः परिवारः तु तेषां लघुपरिवारः अन्य परिवारः अस्ति बृहत्परिवारः बृहत्परिवारः अस्ति तर्हि यः यः पुरुषः विवाहं न करोति तस्य एकः एव परिवारः अस्ति तस्य पालनं सः करोति बृहत् परिवारस्य पालनं करोति तस्य सहायं करोति सेवां करोति यस्य यः गृहस्थः अस्ति तस्य परिवारद्वयं वर्तते सः द्वयोः अपि सहायं करोति तत्र लघुपरिवारस्यापि पालनं पोषणं करोति बृहत्परिवारस्यापि बृहत्परिवारस्य विषये अपि सः चिन्तनं करोति तत्रापि सेवां करोति तर्हि यः गृहस्थः अस्ति तस्य कृते तु क्लेशाः भवन्ति एव यतोहि परिवारजनाः यदि केवलं सहायपुरुषः एव योगनिष्ठजीवने व्यस्तः अस्ति परन्तु तस्य परिवारे अन्यजनाः व्यस्ताः न सन्ति चेत् तदानीं क्लेशाः तु भवन्ति एव परन्तु तेन तेन किं तत्र योगनस्य जीवनं त्यक्तव्यम् इति वा तथा नास्ति तत्र यदि तस्य मनसि दृढसङ्कल्पः अस्ति मया एतद् अयमेव मार्गः मम कृते सम्यक् अस्ति इति तस्य मनसि दृढसङ्कल्पः विश्वासः अस्ति पलिष्यति इति विश्वासः तत्र प्रथमलक्षणं पलिष्यति इति विश्वासः इत्युक्ते तत्र एकदा पार्वत्या पृष्टं तत्र शिवं प्रति पार्वती पृच्छति तत्र लोके मुक्तिः uh, मोक्षः कथं लभ्यते इति तत्र शिवः वदति आत्मज्ञानम् आत्मज्ञानम् आवश्यकं तर्हि तत्र प्रथम प्रथमलक्षणं किम् अस्ति तत्र uh, मोक्षं प्राप्तुं मोक्षमार्गे साफल्यं प्राप्तुं प्रथमलक्षणं किम् अस्ति इति चेत् फलिष्यति इति विश्वासः यदि तत्र इद अयं मार्गः इति मया मिनीतः तदानीम् अयं मार्गः तस्मात् मार्गात् मम स्थाफल्यं भवति इति विश्वासः भवेत् यदि विश्वासः नास्ति तदानीं तत्र पालनं करणेन न कोऽपि लाभः प्रथमतया विश्वासः भवेत् अस्मात् मम स्थापल्यं भवति फलिष्यति इति विश्वासः यदा नास्ति तदानीं तस्मिन् मार्गे अग्र अग्रे गमनेन न कोऽपि लाभः अस्ति अतः यथा शिवस्य उपदेशः अस्ति तथा यदि तत्र यदि कुत्रचित् गन्तव्यं दिल्लीं प्रति गन्तव्यं तर्हि तत्र यानमस्ति मम पुरतः अहं जानामि इदं यानं दिल्लीनगरं प्रति गच्छति इति जानामि चेत् तत्र तस्मिन् उपविश्य मार्गे उपविश्य हम तत्र अग्रे गच्छामि खलु तत्र मा याने याने उपवेशनानन्तरं अहं न पृच्छामि ओ इद इदं यानं दिल्लीनगरं प्रति गच्छति वा न वा इति तदानीम् अहं न पृच्छामि तत्र उपवेशनात् पूर्वम् अहं चिन्तनं करोमि आलोच आलोचनां करोमि ओ अग्रे गच्छामि वा न अत्र इदं यानं गच्छति वा अग्रे गच्छति वा दिल्लीनगरं प्रति गच्छति वा एतत् सर्वम् अहं विचारयामि यदि विचारं यदा यदि विचारं मया विचारं कृतं विचारः कृतः तदानीं तत्र याने उपविश्य अहम् अग्रे गच्छामि तत् तदनन्तरम् अहं प्रश्नं न पृच्छामि ओ इदं यानं दिल्लीनगरं प्रति गच्छति वा न इति न पृच्छामि एवं यदा मया निर्मितम् अयं मार्गः सम्यक् अस्ति यदा मया निर्मितं तदानीं तत्र विश्वासः भवेत् भविष्यति इति विश्वासः भवेत् यदि विश्वासः नास्ति तद् सर्वदा संशयः अस्ति मनसि तदानीम् अग्रे गमनं न भवति अग्रे गमनं कदापि न भवति सम्पूर्णतया तत्र ओपन् मैण्डेड् ओपन् मैण्डेड् कृत्वा किम् अस्ति अत्र अहं पश्यामि एकवारं सम्पूर्णतया मम मनः सम्पूर्णतया अत्र अस्ति अहं पश्यामि इति आ, तत्रा, तत्रा एवं रीत्या वयं कुर्मः चेत् निश्चयेन तत्र साफल्यमपि लभ्यते मनसि सर्वदा तत्र शङ्का अस्ति ओ इदमपि भवतु तदपि भवतु दिल्लीनगरं प्रति गन्तव्यं तर्हि इदानीं तत्र इति इति कृत्वा तत्र तत्र यानं प्रति न गच्छामः परन्तु मनसि एवमेव व्यवहारः अस्ति ओ अहं किं अत्र अहं पादेन गच्छामि वा एत अन्यमार्गेण गच्छामि वा इत्येवं पुनः पुनः चिन्तनं कुर्मः चेत् तत्र समयः समयस्य व्ययः भवति तर्हि अन्ततो गत्वा दिल्लीनगरस्य प्रापणमपि न भवति अतः तत्र यदा निश्चयः अभवत् तदानीं तत्र अग्रे गन्तव्यं तत्र भलिष्यति इति विश्वासः अवश्यं भवेत् तदानीमेव साफल्यं भवति पलिष्यति इति विश्वासः नास्ति चेत् कदापि न भवति तर्हि अत्र अस् अस् योगदस्य जीवने यदा प्रवेशः भवति तदानीं तत्र समाजे अस्माकं व्यवहारः कथं भवेत् यतोहि सर्वेष् सर्वे जनाः पशुव्यवहारमेव कुर्वन्ति तत्र प्रायेण सर्वे जनाः पशुव्यवहारमेव कुर्वन्ति तर्हि वयं तु हिमालयं प्रति न गच्छामः लोके एव तर्हि अस्माकं व्यवहारः समाजे अस्माकं व्यवहारः कथं भवेत् इति चेत् तत्र अत्र विषयः कः मुख्यविषयः कः इति चेत् कोऽपि सन्यासी भवतु गृहस्थः भवतु परन्तु सम समस्या तु समाना समस्या एव अस्ति अस्माकं पुरतः ये जनाः सन्ति ते जनाः सर्वे जनाः पशुजीवने व्यस्ताः सन्ति तर्हि अस्माकं व्यवहारः तेषां विषये अस्माकं व्यवहारः कथं भवेत् इति चेत् यदा वयं तेभ्यः सम्पर्कं कुर्मः अथवा सम्भाषणं कुर्मः तदानीं तेषां सहायार्थं वयं प्रयत्नं कुर्मः ते मानवजीवने ते आगच्छन्तु इति तेषां कृते निमन्त्रणं दद्मः तेषां कृते वयं पाठनं कुर्मः तेषां बोधः भवतु इति कृत्वा वयं प्रयासं कुर्मः परन्तु यदि ते ते इच्छन्ति यदि तेषाम् इच्छा नास्ति तदानीम् अस्माकं समयः तत्र वयं स्थापया अन्या, न स्थापयामः तत्र अस्माकं समयः व्ययः मा भवतु तर्हि अन्य अन्यत्र वयं प्रयासं कुर्मः यदि ते न इच्छन्ति प्रयत्नं कुर्मः यदि ते न इच्छन्ति तर्हि यदि ते तु पशुव्यवहारे व्यस्ताः सन्ति तर्हि वयम् अस्माकं जीवनस्य लक्ष्यं त्यक्त्वा पशुव्यवहारे व्यस्ताः न भवामः ते ते इच्छन्ति पशुव्यवहारं चेत् भवतु नाम ते तेषां लाभाय वयं प्रयत्नं कुर्मः ते अपि मानवजीवनस्य पालनं ते अपि कुर्वन्तु इति वयं प्रयत्नं कुर्मः परन्तु ते न इच्छन्ति तदानीं वयम् अस्माकं समयस्य व्ययः न समयस्य व्ययं न कुर्मः यतोहि समयः न्यूनः एव अस्ति इदानीं वयं लोके स्मः परन्तु श्वः वयम् अस्मिन् लोके भवामः वा न वा इति वयं न जान जानीमः यतोहि अस्माकं जीवनं निरन्तरं नास्ति तर्हि अद्य अस्ति भवति वा इति कोऽपि जाती तुख्य विषय क्या यदा वह लोके वसा तदीम लोके सकहार कथम भविचे वा उन्नयनाथ वह प्रयत्न कू परु ते न इच्छा चेहर तदीम समय से व्यम न कूम वयम तो अग्रे गा ये लोके ये जनाः सन्ति ते अपि परमात्मनः सन्तानः एव सन्ति तेषां सेवा अस्माकं अस्माकं दायित्वम् अस्ति अतः वयं प्रयत्नं कुर्मः परन्तु अन्ततो गत्वा तेषामपि संस्काराः सन्ति खलु यदि तेषां संस्कारस्य बलेन ते अत्र आगन्तुं न इच्छन्ति चेत् तदानीं वयं तत्र तत्र पुनः तत्र यत्नः न यत्नं न कुर्मः यतोहि समयः न्यूनः प्रयासं कुर्मः परन्तु प्रयासे तेषां साफल्यं न भवति चेत् वयम वयं वयमग्रे गच्छामः अतः हा। गृहस्थः वा भवतु सन्न्यासी वा भवतु अस्माकं दायित्वं समान समान समान, समान समानमस्ति अन्यदपि स्मर्तव्यम् अस्मिन् जगति ये ये जनाः सन्ति तेषां अपि च अस्माकं यः सम्बन्धः अस्ति सः सम्बन्धः स्थायिसम्बन्धः नास्ति क्षणिकसम्बन्धः अस्ति यदा रेल्याने वयं प्रयासं कुर्मः यदा रेल् याने वयं प्रयासं कुर्मः तदा तत्र रे रेल्याने अन्यजनाः अपि आगच्छन्ति तर्हि तत्र तेषाम् अस्माकं तत्र सम्पर्कः तेषां सह अस्माकं तैः सह अस्माकं सम्पर्कः भवति सम्भाषणमपि भवति सम्यक् भवति सम्भाषणं किञ्चित् कालं पर्यन्तं सम्भाषणं भवति तदनन्तरं यदा तेषां स्थानम् आगच्छति तदानीं ते तु बहिः गच्छन्ति तदानीं तदनन्तरं अस्माकं सम्पर्कः तैः सह सम्पर्कः कदापि न भवति इत्येवं रीत्या तत्र अस्माकं सम्बन्धः क्षणिकः क्षणिकः सम्बन्धः इदानीं कश्चन मम पतिः अस्ति कश्चन मम पुत्रः अस्ति काचित् मम पुत्री अस्ति तत्रापि अस्माकं सम्बन्धः क्षणिकः एव इदानीम् इदानीं पर्यन्तं तत्र पुत्रः पुत्री पतिः एतत् सर्वम् परन्तु सर्वदा अस्ति वा श्वः तस्य मरणं भवति तदानीमपि सः पतिः वा न खलु तदानीमपि सः पुत्रः वा तदानीं तत्र तेन सह सम्पर्कः अस्ति वा नास्ति खलु अतः जगति यस्य सः अस्माकं येन सह अस्माकं विवाहः जातः अथवा यत्र वयं कार्यं कुर्मः अथवा मम पुत्रः वा पुत्री वा भवतु मम माता मम पिता यः कोऽपि भवतु नाम सर्वत्र अस्माकं सम्बन्धः क्षणिकसम्बन्धः अस्ति स्थायिसम्बन्धः नास्ति कुत्रापि केन सह अस्माकं स्थायिसम्बन्धः अस्ति केवलं परमात्मा परमात्मा परमात्मना परमात्मना एव अस्माकं सम्बन्धः स्थायि अस्ति अन्येषां तत्र अन्यैः सह अस्माकं सम्बन्धः सर्वदा क्षणिकः क्षणिकः एव सम्बन्धः अस्ति यथा सह अस्माकं सम्पर्कः भवति परन्तु तत्तु क्षणिकक्षणिकसम्बन्धः निरन्तरः सम्बन्धः नास्ति यदा सः तु रेल्यानात् बहिः गच्छति यदा तस्य स्थानम् आगच्छति तत्र तेन सह अस्माकं तत्र सम्बन्धः एव नास्ति तर्हि पुनः सम्पर्कः कदापि न भवति इति कृत्वा तत्र एतत् सर्वम् अस्माभिः ज्ञातव्यं यत् लोके यः अस्ति तेन सह अस्माकं सम्पर्कः क्षणिकः मम पतिः अस्ति यदि मम पतिः अस्ति पतिः पत् पतेः पतेः विषये अपि तत्र तत्र किं सम्बन्धः निरन्तरः सम्बन्धः इति वयं चिन्तयामः चेत् तदानीं तु वयं तु मूर्खाः तत्रापि सम्बन्धः क्षणिकः सम्बन्धः यदा अस्माकम् अग्रे गमनार्थं तेषां बाधा अस्ति चेत् तदानीं तत्र अस्माभिः दृढसङ्कल्पः करणीयः अस्ति दृढसङ्कल्पः नास्ति चेत् तदा तदानीं साफल्यं न लभ्यते अतः तत्र हिमालयपर्यन्तं गन्तव्यम् इति किमपि नास्ति यत्र वसामह, वसामः तत्र एव सात्विकवातावरणं निर्मातुं वयं शक्नुमः तर्हि आत्ममोक्षार्थं जगत् हितार्थं वयं सर्वदा प्रयासं कुर्मः यदि कोऽपि मद्यपानं करोति चेत् तेन सह यदा व्यवहारः अस्ति तदानीं वयमपि मद्यपानं कुर्मः इति नास्ति तर्हि तेन सह यदा व्यवहारं कुर्मः अस्माकं व्यवहारः कथमस्ति तदाधारेण तादृशपुरुषम् अस्माकं व्यवहारे कथम् आनेतुं शक्नुमः इति तत्रैव अस्माकं प्रयासः न तु वयं तु मद्यपानं करोमि इति तादृशव्यवहारः नास्ति यदा वयं लोक् लोके यदा वयं व्यवहारं कुर्मः तदानीम् अस्माकं टर्म्स, अकार्डिङ्ग् टु अवर् टर्म्स् वि विल् डील् वित् एम् कोऽपि मांसाहारं करोति चेत् तदानीं तेन सह उपविश्य वयमपि मांसाहारं न कुर्मः इति अयं मुख्यविषयः अस्ति इत्येवं रीत्या वयं व्यवहारं कुर्मः चेत् तदानीं साफल्यम् अवश्यमेव लभ्यते अवश्यमेव लभ्यते इति अत्र यतमानस्तरे तु क्लेशाः सन्ति परन्तु अस्माभिः अग्रे गन्तव्यं कलिष्यति इति विश्वासः मनसि दृढतया गृहीत्वा अस्माभिः अग्रे गन्तव्यम् इति अत्र उक्त्वा वयम् अग्रे गन्तुं शक्नुमः तत्र संशयः अथवा प्रश्नाः सन्ति तर्हि इदानीम् अत्र करपत्रे परमपुरुषेण सह ब्रह्माण्डेन सह मम सम्बन्धः कः इति करपत्रे अस्माभिः दृष्टं मनुष्यैः यद् कर्म क्रियते तस्य प्रतिक्रिया अवश्यं भवति यदा कर्म क्रियते तदानीं मनसि विकारः जायते तत्र मनः पुनः तत्र पूर्वस्थानं प्राप्तुं यतते तदर्थं तत्र प्रतिक्रिया प्रतिक्रियायाः प्रतिक्रिया भवति तादृश प्रतिक्रिया पुण्यरूपेण भवति अथवा पापरूपेण भवति यदा मनुष्यः मरणं प्राप्नोति तदानीं एताः प्रतिक्रियाः यस् ये ये यासां भोगः न जातः तादृश प्रतिक्रियाः मनसि एव तिष्ठन्ति यदा मनः शरीरात् बहिः गच्छति जीवात्मनि आश्रयं गृहीत्वा तदानीं ये एताः प्रतिक्रियाः संस्काररूपेण तिष्ठन्ति कोपि यदा पुरुषः रामः इति कश्चन पुरुषः तस्य मरणं जायते चेत् तदानीं तस्य मनः शरीरात् बहिः गत्वा जीवात्मने आश्रयं प्राप्नोति तत्र मनसि एव तत्र संस्काराः भवन्ति तत् येषां भोगः न जातः कर्मफलरूपेण येषां संस्काराणां भोगः न जातः तादृशसंस्काराः मनसि तिष्ठन्ति तर्हि तस्य अनुगुणं कर्मफलानां संस्काराणाम् अनुगुणं तस्य पुनर्जन्म भवति यदि कश्चन पुरुषः अस्ति तस्य तस्य पादे तत्र रोगः भवेत् अष्टवयसि तस्य पादे रोगः भवेत् इति चेत् तदानीं तादृश तादृशस्थले तस्य जन्म भवति पुनर्जन्म भवति यत्र तादृशमनसि वेदना भवेत् यत्र पादे रोगः भवेत् तादृशवेदना तस्य मनसि भवेत् इति सः तादृशम् अग्रिम अग्रिमजन्मनि तत्र संस्कारानुगुणं तस्य कर्मफलानि भवन्ति तर्हि एतत् किमर्थं भवति इति चेत् संस्काराः किमर्थं भवन्ति इति चेत् तेन मनः पुनः तस्य पूर्वा आकारं पूर्वाकारं प्राप्नोति यदा कर्म कुर्मः तदानीं मनसि विकारः भवति तत्र पूर्वावस्थां प्राप्तुं संस्काराः सन्ति इति एतत् अस्माभिः दृष्टम् इदानीं किञ्चित् अग्रे गच्छामः तर्हि सरलाभगिनी भगनी वा आम् भवती दर्शति दर्शयति वा ओ क्षम्यतां भगिनी क्षम्यतां मया दर्शितम् इति चिन्तितं सुखस्य वास्तविकं रूपं पूर्वनिर्धारितं नास्ति इत्यत्र स्पष्टीकरणम् आवश्यकम् अस्ति कस्यचित् क्रियाविशेषस्य वास्तविकप्रतिक्रिया का भवेत् इति वक्तुं न शक्येत् यथा उदाहरणत्वेन यदि कश्चन पुरुषः चौर्यकार्यं करोति तर्हि तस्य समानमूल्यानि वस्तूनि प्रतिक्रियारूपेण अपहृतानि भवन्ति इति पूर्वविहितं नास्ति यावद्दुःखं परेषां सम्पत्ति चौर्येण अन्येषु प्रणीतं तावद् दुःखं मानसिकदुःखरूपेण परिमितं भवति एवं कर्मफलानां कर्मफला कर्मफल अनुभवस्य परिमाणं मानसिकम् सुखदुःखरूपेण च भवति केन रूपेण भव, भवति इति अत्र महत्वम् नास्ति एतेषां सर्वेषां घटनानां दुःखं सुखं च रामेण अनुभोक्तव्यं भवति अतः रामस्य जीवात्मना पुनः जन्मसमये शरीरम् अन्वेष्टव्यम् भवति यत्र एतत् सर्वम् अनुभोक्तुम् अवसरोपलब्धः भवति एकादशवर्षे कृतमरणस्य मानसिकपीडां भोक्तुं रामः तादृशेभ्यः मातृप्रत्येभ्यः जायते यत्र रामस्य तत् वयसि प्राप्ते पित्रा अपि स्वकर्मणानुसारं म्रियते नो चेत् रामः पृथमरणस्य दुःखस्य प्रतिक्रियां कर्मफलम् अनुभवितुं न शक्ष्यति एवं दृश्यते यत् जीवात्मा सम्भाव्यप्रतिक्रिया संस्काराः यस्मिन् कस्मिन् अपि शरीरे पुनर्जन्मार्थं यद् इच्छया दृच्छया आश्रयं ग्रहीतुं न शक्नोति योगे शरीरे यत्र प्रतिक्रियां फलान् अकर्मफलानाम् अनुभवार्थम् अवसरः क्षेत्रं च उपलभ्यते तादृशम् शरीरम् अन्वेष्टव्यम् भवति तादृशे एव शरीरे जीवात्मना समग्रैः सम्भाव्यप्रतिक्रियाभिः सह आश्रयम् अन्विष्य पुनर्जन्म प्राप्स्यति इदानीं वयं पठितं सन्ति यत् मृत्युः अनन्तरं जीवस्य मृत्युः अनन्तरं यत् जीवात्मा सूक्ष्मशरीरसह गच्छति विदेहरूपेण श्रूयते भगिनि श्रूयते रूप इदानीं यदा जीवात्मा सूक्ष्मरूपेण सूक्ष्मशरीर सह मृत्युनन्तरं यदि अ शरीरात् अपगच्छति तत्र ये सञ्चितकर्मास्सन्ति तेषां यावत्पर्यन्तं पुनः अन्य शरीरं न प्राप्नोति तावत् पर्यन्तं तत्र हि तिष्ठति uh, तत्र यत् uh, अस्मिन् जन्मनि uh, ये कर्माणि uh, कर्माणि uh, uh, uh, कुर्वन् तेषां यत् प्रतिक्रिया uh, तत् uh, uh, uh, तत् सूक्ष्मशरीर शरीरसः शरीरेण सह संस्काररूपेण तिष्ठति इति वयं दृष्टवन्तः इदानीं यत् तत् सञ्चित् कर् कर्मसु यत् किञ्चित् भागं यत् ती सज्जा भवति तस्य कर्मफलस्य इति यत् कर्मफलस्य भोगं यत् तस्य जन्म भवेत् तस्य कृते तस्य संस्कार अनुसरणेण कह शरीरः कस्मिन् देशे क केषां के, के तस्य मातापितरौ भवेत् इति सर्वे दृष्ट्वा तस्य जन्म भवति यत् तस्य ये संस्कारः सन्ति तेषां भोगं सः नूतनजन्म जन्मनि तस्य भोग भोगस्य फलं प्राप्न शक्न, प्राप्नु शक्नोति प्राप् प्राप्तुं शक्नोति इति अत्र उदाहरणमस्ति यदि को को कश्चन जनः चौर्यं चो, करोति यदि चोर्यं करोति कियत्पर्यन्तं तस्य अनु प्रतिक्रिया तस्मै तस्मै प्रभावं करोति इति नासी तस्य प्रभाव झटिति भवेत् या किञ्चित् कालानन्तरं पुनर्जन्मे जन्मनि भवेत् इति न वक्तुं शक्नु शक्नुमः किन्तु निश्चयेन सह तस्य कर्मफलस्य प्रभावं भोक्तुं तस् तस्मै भोक्तव्यम् इति अस्ति कथं भोक्तव्यम् यावत् वेदना यत् पुरुषस्य चोरी चोरी अभवत् अनेन कियत्पर्यन्तं मनसि वेदना अभवत् तस्मिन् पुरुषे ता तावत् तस्य प्रतिक्रिया चौर्यं प्रति भवति इति अस्ति तो तत् अत्र उदाहरणमस्ति यथा कोऽपि एकादशवर्षबालः अस्ति पितु तस्य पितुः मृत्युः भवति तत् अपि भवति तस्य पूर्वजन्मनि यत् कर्म तेन कृ तेन, तेन, तेन, तेन कृतम् अस्ति तस् तत् आधारेण एव भवत् अपि तस्य पितुः अपि एक कर्माणि तस्य कर्मफलस्य अनुसारं तस्य मृत्युः अभवत् इति किन्तु यत् बाल एकादशे वर्षे एकादशवर्षाणि अस्ति पितुः मृत्युः दुःखम् अनुभवति तत् नास्ति कोऽस्मिन् जन्मनि इति तस्य कर्म अभवत् किन्तु पूर्वजन्मन च संस्कार इदानीं सः भोक्त भो भोक् भोक् भो भुनक्ति साधु नुनक्ति इति वक्तुं शक्नुमः कर्मफलं भूते भुनति खाद्यं प्रति वदामः साधु अस्तु सर्वे यस्मिन् क्षेत्रे तस्य जन्म भवति इति परमात्मनः एव सर्वं यत् प्रकृतिः अस्ति तस्य अनुभवः अनुसारेण एव भवति संस्कार किम् अस्ति तत् अनुसारेण एव सर्वं रचलवती mm. समीचीनं समीचीनम् yeah. इत्युक्ते अत्र सम्पूर्णविश्वः प्रकृतेः पुरतः अस्ति तर्हि प्रकृतेः दृष्टिः सर्वत्र अस्ति विश्वे तर्हि यदि कश्चन कर, पुरुषः मरणं प्राप्नोति तदानीं सः पुरुषः यत्र कुत्रापि जन्म जन्म प्राप्तुं शक्नोति अस्मिन् गृहे एव भवतु अन्यत्र गृहे एव भवतु परन्तु अत्र विषयः कः इति चेत् तत् सादृशपुरुषस्य संस्काराः अतः सा, तस्य जन्म उचितस्थले भवेत् उचितसमये उचितस्थले उचितगृहे तस्य जन्म भवेत् यत्र तस्य संस्काराणां भोगः भवेत् खलु यत्र संस्काराणां भोगः भवति तादृशस्थलम् अपेक्षितं तस्य संस्कारस्य अपि च परिस्थितेः अनयोः अनयोहो अनयोः साम्यं भवेत् साम्यं भवेत् या, यादृशाः संस्काराः सन्ति तस्य भोगार्थं तत्र उचितपरिस्थितिः अपेक्षिता अस्ति तत्र एव यदि तस्य जन्म भवति तदानीं तत्र संस्काराणां भोगः भवितुमर्हति तर्हि तत्तु कदाचित् मरणानन्तरं झटिति भवितुमर्हति कदाचित् बहुकालानन्तरमपि भवितुमर्हति तत् वयं न जानीमः इत्युक्ते मम संस्काराः सन्ति इदानीं मम मरणं जायते तर्हि अग्रिमक्षणे एव मम नूतनशरीरमपि लभ्यते इति नास्ति कदाचित् भवितुमर्हति इदानीं यदा तादृशपरिस्थितिः वर्तते मम संस्काराणां भोगार्थं तदानीं तत्र झटिति जन्म भवितुम् अर्हति अथवा यावत्पर्यन्तं तादृश उचितस्थलम् उचितसमयः न लभ्यते उचितवातावरणं न लभ्यते तावत्पर्यन्तं सः जीवः प्रतीक्षां करोति अतः प्रकृतिः बहु सूक्ष्मतया एतत् सर्वं करोति प्रकृतेः कार्यमस्ति एतत् सर्वम् अतः प्रत्येकं प्रत्येकं प्रत्येकस्मिन् दिने बह बहूनां जनानां मरणं जायते खलु तर्हि तत्र झटिति एव तेषां सर्वेषां पुनर्जन्म जायते इति नास्ति खलु तत्र केषाञ्चित् जायेत परन्तु अन्येषां तु प्रतीक्षा एव भवति यावत्पर्यन्तम् उचितवातावरणं न भवति त तावत्पर्यन्तं जन्म पुनर्जन्म न भवति भगिनी पुराणम् चित्रगुप्तः अस्ति सर्व सर्वेषां कर्माणि किम् अस्ति तत्र लिखति तस्य अनुसारेण इति तत्तु पुराण पुराणकथा अस्ति पुराणं कथा इति पुराणकथा अस्ति परन्तु अत्र अत्र वयं किं वदामः इति चेत् एव एतत् सर्वं करोति प्रकृतेः नियन्त्रणानुगुणम् एतत् सर्वं भवति सा तया एव निर्णयः क्रियते कुत्र कस्य जन्म भवेत् कस्मिन् शरीरे जन्म भवेत् न केवलम् इत्युक्ते अस्मिन् जन्मनि अहं मनुष्यरूपेण अस्मि अग्रिमजन्मनि अपि मनुष्यरूपेण एव भवामि निश्चयः नास्ति पुरुषः पशु वा किम् अस्ति किमपि भवितुमर्हति हा इति अत्र अस्तु तर्हि किञ्चित् अग्रे गच्छामः तर्हि किं तत्र रिता बिनि पठति वा जीवात्मनं था सम्भाव्यप्रकृतिप्रतिक्रियाभिः संस्कारैः च था। स्वाश्रयार्थं तादृश शरीरं अन्वेषणीयं यत् जीवात्मनः कर्मणां पर परिणामस्य अनुभवाय उपयुक्तुं क्षेत्रं प्रदद्यात् जीवात्मनां कृते एतत् उपयुक्तं क्षेत्रं कः प्रतिनिधिरूपेण चिनोति जीवात्मा किमपि कर्म कर्तुं न शक्नोति जीवात्मा, जीवात्मा केवलं प्रेक्षकः एव सम्भावितशक्तिरूपेण अथवा बलरूपेण मनः तस्मिन् जीवात्मनि सम्भाव्य प्रतिक्रियारूपेण संस्काररूपेण आश्रयं स्वीकरोति अतः मनः अपि अकार्यात्मकम् अस्ति प्रकृतेः नियमानुसारेण केनचित् प्रतिक्रियायाः अनुभोक्तव्याः भवति इति अस्माभिः पूर्वं दृष्टम् अतः अस्माकम् अवशिष्टानां प्रतिक्रियाणाम् अनुभवं कारयितुं प्रकृतेः अपि दायित्वम् अस्ति अतः प्रकृतेः नियमानुसारेण एव कश्चित् कस्यचित् पुनर्जन्म भवति जीवात्मनः सम्भाव्यप्रतिक्रियाणां संस्काराणां च आवश्यकं क्षेत्रम् आश्रयं च अन्वेष्टुं प्रकृतिः एव अरहति。अतः एव उक्तं मृत्योः अनन्तरं प्रकृतिः च सम्भाव्यप्रतिक्रियाणां संस्काराणाम् अनुभवार्थं योग्यं क्षित्रं चिनोति एतादृशं क्षेत्रम् एकस्मिन् देशे देश, एकस्मिन् दिने उपलभ्यते अथवा तस्य आविष्कारार्थं कोटिवर्षाणि अपि भवन्ति यतः सम्भाव्य प्रतिक्रियाणाम् आवश्यकतानुसारं क्षेत्रं यावत् न प्राप्यते तावत् मनः शरीरे आश्रयं ग्रहीतुं न शक्नोति इदानीं वयं पठितवन्तः तत्र मृत्युनम् मृत्युनन्तरं ये संस्काराः जीवात्मने अस्ति तत्र तेषां भोग भोगार्थं शरीरस्य आवश्यकता अस्ति इदानीं जीवात्मनः तत्र मृत्यु मृत्यु अनन्तरम् अथवा मनः तत्र किमपि कर्तुं न शक्नोति अतः कः शरीरस्य चिन् चिनोति इति प्रश्नः उदेति तत्र प्रकृतेः प्रकृतिः एव शरीरस्य अन्वेषणं करोति यदा जीवात्मना येषां कर्माणां संस्काराणां भोगं प्राप्तुं शक्नोति तत् तस्य आधारेण एव प्रकृतिः एव शरीरं ददाति इदानीं कि किय सम आवश्यकता अस् कॉप तुर तत् शरीर प्राथवा कोटिवर्षा भात अर्ति युक्तशरी उपयुक्त शरीर उपलभ्य जीवात्मा तर शरीर से आश्रय स्वीको अथवा प्रकृतिः तस्य जीवात्मा कृते तस्य शरीरस्य अन्वेषणं करोति तदा जीवात्मा तत् शरीरं स्वीकरोति अन्यत् किमपि नास्ति इति अहं भावयामि समीचीनं भगिनी भगिनि इत्युक्ते अत्र जीवात्मा साक्षीसत्ता अस्ति तर्हि जीवात्मा किमपि करो न करोति तर्हि इदानीं मनः मनः कदा कार्यं करोति इति चेत् यदा तदा तस्य आश्रयः अस्ति मस्तिष्करूपेण मस्तिष्कः एव आश्रयः अस्ति मनः यदा मनः शरीरे मस्तिष्के आश्रयं प्राप्नोति तदानीमेव मनः कार्यं करोति यदा मरणं जायते शरीरस्य मरणं जायते तदानीं मनः शरीरात् बहिः गच्छति तदानीं मनसि कार्यं कर्तुं सामर्थ्यं नास्ति मनसि कर्तुं न शक्नोति यतोहि शरीरं नास्ति तर्हि मनसि संस्काराः अभुक्तप्रतिक्रियाः तत्र प्रतिक्रियाः सन्ति यद् यानि कर्माणि पूर्वम् अस्माभिः कृतानि तेषाम् अभुक्तप्रतिक्रियाः मनसि तिष्ठन्ति ते मनसि ते ताः प्रतिक्रियाः बद्धाः सन्ति मनसि तर्हि मनः तु जीवात्मनि आश्रयं प्राप्नोति अतः मनः अपि किमपि कर्तुं न शक्नोति जीवात्मा अपि किमपि कर्तुं न शक्नोति जीवात्मा तु केवलं साक्षिसत्ता अस्ति मनः तु शरीरं विना किमपि कर्तुं न शक्नोति जीवात्मा साक्षिसत्ता इति कृत्वा किमपि कर्तुं न शक्नोति तर तर्हि अत्र अन्य अन्या सत्ता का अस्ति इति चेत् प्रकृतिः एव अस्ति प्रकृतिः एव तत्र प्रत्येकं मनः अनु अनुमनः कुत्र गच्छति आ, कुत्र तस्य पुनर्जन्म भवति इत्यस्य निर्णयं प्रकृतिः एव करोति तर्हि प्रकृतिः एव निर्णयं करोति तत्र समयः उचितः समयः कः उचितस्थलं किम् एतत् सर्वं प्रकृतिः एव निर्णयं करोति तत्तु कदाचित् झटिति भवति कदाचित् कालान्तरेण अपि बहुकालान्तरमपि भवितुम् अर्हति तावत्पर्यन्तं तत्र मनः जीवात्मनि एव तिष्ठति तत्र ये मनसि संस्काराः अभुक्तप्रतिक्रियाः तथैव तिष्ठन्ति अतः वास्तविकतया भूताः इति किमपि नास्ति यतोहि शरीरात् बहिः गच्छति चेत् मनः किमपि कर्तुं न शक्नोति अतः तत्र भूतः इति भूतः प्रेतः इति तादृशविषयः न ना किमपि नास्ति यावत्पर्यन्तं प्रकृतिः तादृशमनसः कृते नूतनशरीरं न प्राप्नोति तावत्पर्यन्तं मनः प्रतीक्षां करोति कदाचित् झटिति भवति कदाचित् कालान्तरेण भवति तर्हि तत्र शरीरं विना शरीरस्य अभावे मनः किमपि न कर्तुं शक्नोति यथा तत्र तत्र सङ्गणके चिप् भवति खलु चिप् नास्ति चेत् सङ्गणकं कार्यं न करोति तत्र चिप् केवलं तिष्ठति चेत् किमपि कर्तुं न शक्नोति यावत्पर्यन्तं सङ्गणकं नास्ति यद्यपि तत्र चिप् एव नियन्त्रणं कर् करोति शरीर तत्र कं सङ्गणकस्य नियन्त्रणं चिप् एव करोति परन्तु बहिः चिप् बहिः सङ्गणकात् बहिः चिप् किमपि कर्तुं न शक्नोति यदा चिप् सङ्गणके आगच्छति तदानीं कार्यं कर्तुम् अर्हति सङ्गणके नास्ति चेत् तत्र किमपि कर्तुं न शक्नोति एवं रीत्या मनः यावत्पर्यन्तं शरीरे अस्ति तदानीं कार्यं कर्तुं शक्नोति यदि शरीरात् बहिः अस्ति सिप् इव शरीरात् बहिः चेत् मनः किमपि न कर्तुं शक्नोति शरीरे अस्ति चेदेव कर्तुं शक्नोति तर्हि तत्र अस्माकं पुनर्जन्म कथं भवेत् तत्र वृक्षरूपेण भवेत् वा मनुष्यरूपेण भवेत् वा पशुरूपेण भवेत् वा कीटरूपेण भवेत् एतत् सर्वं तस्य एतस्य सर्वस्य निर्णयं तत्र प्रकृतिः एव करोति तर्हि यदा नूतनशरीरं लभ्यते तदानीमेव पुनः मनः कार्यात्मकं भवति तावत्पर्यन्तं कार्यात्मकं न भवति तत् इत्युक्ते तत्र द मैण्ड् विल् बि ए स्टेट् आफ् सस्पेन्शन् इो इस् नाट् लैक् अ गोस्ट् रैट् विैण्ड्स् आफ़् स्टोरीस् बट् दट् इस् नाट् ट्रू रैट् तत्र ये तत्र अस्माकं परिवारजनाः सन्ति केचन जनाः वदन्ति तत्र मरणानन्तरं तत्र जीवात्मभूतरूपेण शरीर तत्र परिवारजनाः कुत्र सन्ति तत्र एव तिष्ठति इति एतत् सर्वं वदन्ति जनाः परन्तु तथा नास्ति तत्र वस्तुतः एदा शरीरं नास्ति तदानि मनः तत्र किं पाञ्चभौतिकजगति नास्ति मनः पाञ्चभौतिकी जगति नास्ति मनः मनः तु मानसिकस्तरे तत्र परमात्मनः सृष्टिकल्पनायाः मानसिकस्तरे मनः तिष्ठति अतः पाञ्चभौतिकस्तरे नास्ति अतः मरणानन्तरं मनः अत्र इतः तत्र गच्छति इति किमपि नास्ति तादृशं आ... ता किमपि नास्ति तत्तु केवलं कल्पनामात्रमेव अस्ति अन्यत् किमपि नास्ति Okay. Uh, इदानीम् अग्रे गच्छामः अस्तु अतः मृत्योः अनन्तरं कुत्र कदा च पुनर्जन्म भवति इति कदापि वक्तुं न शक्यते असङ्ख्याताः लोकाः स्युः यत्र जीवनं वर्तते जीवात्मा सम्भावितप्रतिक्रियाः च तेषु लोकेषु कस्मिन् अपि योग्यं क्षेत्रं प्राप्तुं शक्नुवन्ति एवं भूमौ एव पुनर्जन्म अपि न आवश्यकम् कश्चित् पृथ्व्याः पृथिव्यां पुनर्जन्म प्राप्तं चेत् तेषाम् अत्र एव योग्यं क्षेत्रं भवति तैः शरीरं गृहीतुं केवलं पूर्वकर्मणां प्रतिक्रिया अनुभवा अर्थम् एव इति स्पष्टम् मनुष्याः पूर्वकर्मणां प्रतिक्रिया अपि अनुभवन्तः नूतनानि कर्माणि अपि कुर्वन्ति पूर्वकर्मणां फल अनुभवः अज्ञात भवि, भविष्यत् अथवा विधिः अदृष्ट इति उच्यते कश्चन यदा अनन्तरजीवने सस्य कर्मणां अनुभवति तदा सः पूर्वकर्माणि किम चेत मनुष्य स्मृति पर्याप्त ना विशालास्त स्मृत्यामृत्या मनुष्या पूर्वजीवन से कर्मी स्मर्त व्या शक्वती मनुष्या अनुभवन्ति ताः प्रतिक्रियाः पूर्वजन्म जीवने तैः सङ्गृहीताः सन्ति वर्तमानजीवने च मनुष्याः तादृश अनुभवानां कारणं ज्ञातुं न शक्नुवन्ति अतः एतेषाम् अनुभवानाम् नामकरणं भाग्यम् अथवा अज्ञात भविष्यत् इति उच्यते स्वस्य जीवने ये बाधाः भवन्ति तेषां विषये प्रायः जनाः परमपुरुषैः दोषम् आरोपयन्ति किन्तु वस्तुतः ते एव उत्तरदायिदायिनः भवन्ति यथा भाग्यवशात् यद् दुःखं तत् सर्वस्य पूर्वकर्मणां प्रतिक्रिया एव भवति कथं परमपुरुष उत्तरदायि भवितुम् अर्हति यथा Uh, तत्र सप्ताहे भवती उक्तवती uh, यत् मनुष्य प्रत्येक मनुष्यः तस्य जीवनस्य एव कर्ता अस्ति यत् पूर्वजन्मनि स कार्यं करोति तस्य तेषां प्रतिक्रिया तस्य अनुसारेण एव अस्मिन् जीवने uh, तस्य सुखं दुःखं यत्कं यत्किमपि सः अनुभवं करोति तत् अनु, अनुसारेण एव अस्ति अत्रापि दत्तमस्ति यत् वयं पूर्वं दृष्टवन्तः नूतनबिन्दुः अत्र अस्ति यत् पूर्वजन्मनि कर्माणि भव अभवत् अभवन् तेषां यत् प्रतिक्रिया संस्काररूपेण अस्मिन् जन्मनि उचितक्षेत्रे उचित मातापितरौ उचितस्थले उचितयोनि यत् यत् अपि अस्ति तत्र यत् जन्म भवति तत्र पूर्वजन्म पूर्वजन्म जन्मनः जन्मन कोऽपि स्मृतिः न भवति मनुष्यस्य मनसि इति अस्ति नूतनबिन्दुः अत्र तस्य स्मृतिः नास्ति किन्तु जीव परमात्मनः एव दोषं ददाति कि इति परमात्मस्य परमात्मन मम प्रति इति सम्यक् न करोति इति वयं वदामः किन्तु अस्मन् वयम् एव अस्म अस्माकं यत् दुःख भवति असुखं भवति तस्य एव वयमेव कारणं स्मः न तु परमात्मनः अस्ति अस्मिन् परिच्छेदे आम् भगिनि समीचीनम् इत्युक्ते अयं विषयः मुख्यविषयः अस्ति सर्वदा तत्र जनाः तेषां भविष्यत्काले किं भवति भविष्यति किं भवति इति जनाः सर्वदा चिन्तयन्ति ते तु किं एक्स्ट्रालजि इति ज्योतिषं अस्मिन् पृच्छति मनुष्य अस्मिन् जन्मनि अपि आगामि यद् कर्म करोति तेषामपि सः ती सज्जितं करोति आगामिकर्मस्य फलानि तथा न केवलं पूर्वजन्मनि नूतनकर्मफलानि अपि सः सङ्गृहत् सङ्ग्रहणं करोति सङ्ग्रहा सङ्ग्रान्ति इत्युक्ते अत्र अत्र किमित्युक्ते जनाः सर्वदा भविष्यत्काले किं भवति इति सर्वदा चिन्तयन्ति ते तु ज्योतिषं प्रति गच्छति अथवा हस्तमपि प्रदर्शयति तत्र मम मा हस्तरेखायां किम् अस्ति इति एतत् सर्वं ज्ञातुम् इच्छति परन्तु एतत् सर्वं तु पूर्वमेव निर्मितमस्ति अतः एतद् वयं किं वदामः तत्र भाग्यम् इति वदामः खलु मम भाग्य भाग्यरेखा भाग्यम् इति वदामः वस्तुतः एतत् सर्वं किमर्थं भवति अस्मि अस्माकं जन्मनि किमर्थम् एतत् सर्वं भवति इति चेत् अत्र पूर्वजन्मसंस्काराः सन्ति पूर्वजन्मसंस्काराः सन्ति यद्यपि भाग्यम् अथवा अन्यत् नाम वयं वदामः मम भाग्यम् इत्युक्ते तत्र कदाचित् बाल्यकाले एव पितुः मरणं जायते चेत् ओ मम भाग्यमेवमस्ति इति जनाः वदन्ति अथवा अन्यत् किमपि दुर्घटना जायते चेत् तदानीमेव वदन्ति मम भाग्यमेवम् अस्ति इति तर्हि तदेव तत्र आ, तत्र वयं किं वदामः अदृष्टम् अदृष्टम् इत्यपि वयं वदामः खलु कदाचित् वयं किं वदामः ओ तत्र परमात्मानं प्रति दोषमपि आरोपयामः ओ परमात्मा मम कृते एव एव करोति अन्येषां कृते तथा नास्ति अन्यजनाः सन्तुष्टाः सन्ति मम जीवने एव, एव, एव, एव कस्त, तत्र कष्टानि सन्ति अहमेव कष्टम् अनुभवामि इति एवमपि वदामः परन्तु अत्र वयं एतत् सर्वं वयं पठामः चेत् वस्तुतः एतत् सर्वं यद्वयम् अनुभवामः अनुभवामः तत्तु अस्माकमेव कर्मणा कर्मणां फलमस्ति कर्मफलम् अतः तत्र दोषारोपणम् इति सम्यक् नास्ति तत्र मनः एव करोति मनः एव कारणमस्ति तत्र एतादृश अनुभवार्थं मनः एव कारणमस्ति अस्माभिः एव पूर्वम् एतादृशकर्माणि कृतानि अतः तस्य कर्मफलमपि अस्माभिः अनुभोक्तव्यम् एव तत्र अतः एव अस्माभिः योगनिष्ठजीवने आत्ममोक्षार्थं जगत्हितार्थं च वयं यत्नं कुर्मः सम्पूर्णजीवने तर्हि अन्यं प्रति दोषार पन, दोषारोपणस्य आवश्यकता नास्ति अन्यं प्रति दोषारो पन, आरोपणस्य आवश्यकता नास्ति वयं न अवगच्छामः इति कृत्वा सर्वदा वयं प्रार्थनां कुर्मः युनो प्रार्थनां कुर्मः अथवा दोषारोपणं कुर्मः परमात्मानं प्रति परन्तु एतत् सर्वं सम्यक् नास्ति यदा वयम् अवगच्छामः सम्यक्तया जनाः वदन्ति यो अयं तु कलियु कलियुगः अस्ति मम भाग्यम् एवम् अस्ति इति एवं, एवं रीत्या भिन्नभिन्न भिन्नभिन्नरीत्या जनाः वदन्ति परन्तु वस्तुतः यदा वयं कर्माणि कुर्मः वयमेव अस्माकमेव दायित्वमस्ति तस्य कर्मफलानां भोगार्थम् अस्माकं दायित्वमस्ति अन्येषां नास्ति अन्ये अन्यं प्रति दोषार् आरोपणं सम्यक् नास्ति तर्हि अस्माकं मनः अस्ति तत्र तेन मनसा वयम् उचितं कर्म कर्तुं शक्नुमः अथवा अनुचितं कर्म कर्तुं शक्नुमः तत्र अस्माकं स्वतन्त्र इच्छा वर्तते खलु अतः उचितं कर्म कुर्मः चेत् तत्र पुण्यरूपेण कर्मफलं भवति अनुचितं कर्म चेत् कर्म कुर्मः चेत् पापरूपेण कर्मफलं भवति अतः वयमेव कारणं तत्र परमात्मा कारणं नास्ति अथवा अन्य कारणं नास्ति तर्हि अत्र अस्माकं कर्म द्विविधं भवति एकं तु यद् वयं स्वतन्त्रतया चिन्तयित्वा यद् वयं कर्म तस्य कर्मफलं भवति अथवा पूर्वं यद् अस्माभिः कृतं तस्य अनुभवार्थं किञ्चित् कर्म कुर्मः तस्य अनुभवार्थं किञ्चित् कर्म कुर्मः इति कृत्वा अस्माकं कर्म द्विविधं भवितुमर्हति वास्तविकं कर्म यद्वयम् इदानीमेव कुर्मः अथवा पूर्वं यत् तस्य कर्मफलरूपेण अपि किञ्चित् कर्म वयं कर्तुं शक्नुमः इति अत्र अस्ति अतः प्रार्थनायाः आवश्यकता नास्ति परमात्मा जानाति अस्माकं कृते किम् इति सः जानाति यत् करणीयं तेन किं करणीयं तत्तु तेन क्रियते एव अतः प्रार्थनायाः आवश्यकं नास्ति मम कृते एतद् ददातु तद् इति प्रश्नस्य विषयः एव इति प्रष्टव्यम् नास्ति खलु वयं सर्वे तु तस्य सन्तानाः अतः सः जानाति अस्माकं कृते किम् उचितं इति तत्सर्वं वः जानाति अतः यत् करणीयं त सः करोति तस्य कार्यं किमस्ति सः तु जानाति अपि च करोति तर्हि यद् अस्माकं कृते इदानीं लब्धं तत्तु तत्तु अस्माकम् एव कुकर्मणां फलमस्ति अतः अन्यं प्रति दोषारोपणं सम्यक् नास्ति एतत् सर्वम् अस्माभिः अवगन्तव्यं तदानीमेव अग्रगतिः सम्यक्तया भवति अस्तु अत्र आ, अन्तिमः परिच्छेदः अस्ति अस्मिन् करपत्रे तत्र हरितभगिनी स्वीकरोति वा समापयामः कुत्र पठामः आरोपयन्ति किन्तु वस्तुतः ते एव उत्तरदायि मनुष्याः एव स्वस्य भागस्य उत्तरदायिनः भवन्ति मनुष्याः एव स्वस्य भाग्यस्य उत्तरदायिनः भवन्ति यतः तेषां कर्म एव भाग्यं सृजति तैः एव सर्वेषां कर्माणां परिमा परिणामः वोढव्यः भवति तेषां स्थाने अन्यं कमपि स्थापयितुं न शक्यते तेषां सत्कर्मणि सत्कर्माणि सत्फलानि जनयन्ति दुष्कर्माणि दुष् जनयन्ति अपवादं विना तैः उभयम् अपि अनुभोक्तव्यं भवति एषः एव प्रकृतेः नियमः अस्ति कोऽपि अस्य नियमस्य परिवर्तनं कर्तुं न शक्नोति अत्र तु एव लिखितमस्ति ये कर्माणि वयं कुर्मः तेषां फलम् वयम् एव अनुभोक्तव्यः अस्ति कोपी अन्न अस्कंक कर्मण न जनयती अस्मकं भाग्यम अस्माकर्मा जनयं पापम वु्यम यदि वत्कर्मा कूँ तदा सत्फल यदि पापकुर्वाणी दुष्कर्मा कू तुष्फल अस्मक दोषी न भवति स्वयं स्वयं कृतानि कर्माणि कृतस्य कर्माणि एव ये सन्ति तेषाम् एव फलम् अनुभवन्ति इति तत्र कोऽपि अन्य तेषां कृते न योग्यः भवति प्रकृतेः नियमः अस्ति तत् तक, तस्य परिवर्तनं कर्तुं न शक्नोति स्वस्य स्वस्य कर्मणः एव वयं फलं प्राप्नुवन्ति क्षम्यतां सम्यक्तया उक्तवती भगिनि धन्यवादः अस्मिन् अत्र अधिकं किमपि वक्तव्यम् इति नास्ति अस्मिन् करपत्रे अस्माभिः दृष्टं मम सम्बन्धः कः अस्ति विश्वेन सह मम सम्बन्धः कः अस्ति अपि च परमात्मनः सह मम सम्बन्धः कः अस्ति इति मया इदानीम् अस्माभिः चर्चितं तर्हि विश्वः तु वस्तुतः एका कक्षा अस्ति वयं तु सर्वे छात्राः अत्र वयं किमर्थम् आगताः इति चेत् अस्माभिः अध्येतव्यम् इति कृत्वा एव अस्माभिः अत्र आगताः अस्माकं कर्मणाम् अभुक्तप्रतिक्रिया अपि एकं यन्त्रम् अस्ति अस्माकं शिक्षणार्थं तर्हि परमपुरुषेण एतत् सर्वं किमर्थं निर्मितम् अस्ति इति कृत्वा इति चेत् सर्व सर्वे जनाः एतत् सर्वं सर्वैः जनैः एतत् सर्वं ज्ञातव्यम् इति कृत्वा एव परमात्मना एतत् सर्वं निर्मितम् अस्ति तर्हि यदि तत्र अभुक्तप्रतिक्रिया नास्ति तर्हि जनाः किमपि न अवगच्छन्ति किमपि तेषां शिक्षणं न भवति अतः इदं इदं जगत् वस्तुतः एका कक्षा वस, येन वयम् अत्र दशवादनात् द्वादशवादनपर्यन्तं वयम् अत्र गत्वा गन्तुं शक्नुमः तत्र सामान्यतया पशुजीवने अस्माकं मनः मनसः वर्धनं न भवति मनसः अधोगतिः एव भवति यः कोपि योगनिश्च जीवने प्रवृत्तः अस्ति तस्य तु अग्रगतिः भवति अस्माकं सर्वेषां तु अत्र अस्माकं सर्वेषां गतिः तु दशवादनात् द्वादशवादनपर्यन्तं भवेत् वयं तु परमात्मनः समीपं गच्छामः अथवा दूरं गच्छामः अत्र अत्र एतत् सर्वं किमर्थं निर्मि निर्मितम् इति चेत् तत्र तत्र मानवधर्मस्य पालनं कथम् इति अस्माभिः ज्ञातव्यम् इति कृत्वा एव एतादृशमस्ति कर्मफलानि संस्काराः एतत् सर्वं किमर्थम् एतत् सर्वं सन्ति इति चेत् अस्माकं बोधनार्थम् एव इति अस्ति अत्र विषयः अस्तु एतत् सर्वं वयं जानीमः इदानीम् इति कृत्वा अस्माकं लाभाय एव भवति वयमग्रे योगनिष्ठजीवने अग्रे वयं गन्तुं शक्नुमः एतत् सर्वं बहु सुन्दरं वर्तते इति कृत्वा अत्र स्थगनं कुर्मः किमपि वक्तव्यं वा अत्र अस्तु अत्र स्थगनं कुर्मः धन्यवादः नमस्कारः धन्यवादः भगिनी धन्यवादः नमस्कारः